ब्रह्माण उत्तरभाग्या फाइव अगस्त्यत्रा जनादनाविर्भव श्रीगणेशा नम अधिपाख्याभ्य चुर्भुजे चंद्रकत कुचोन कुंकुमरागशोणे पुण्ड्रे सुपाशाङ्कुष्य पुष्पबाणहस्ते नमस्ते जगदेगमादः अस्तु न श्रेयसे नित्यं वस्तु वामाङ्गसुन्दरं यतस्तृतीयो विदुषां तृतीयस्तु परमहः अगस्त्यो नाम देवर्षिर्वेदवेदाङ्गपारगः सर्वसिद्धान्तसारज्ञो ब्रह्मानन्तरसात्मकः चचाराद्भुतहेदूनि तीर्थान्यायतनानि च शैलारण्यापगामुख्यान् सार्वाञ्जनपदानपि तेषु तेष्वखिलाञ्जन्तूनज्ञानतिमिरावृतान् शिश्नोदरपरान् दृष्ट्वा चिन्तयामास्स तान् प्रति तस्य चिन्तयमानस्य चरदो वसुधामिमां प्राप्तमासीन्महापुण्यं काञ्चीनगरमुत्तमं तत्र वारणशैलेन द्रमेकाम्रनिलयं शिवम् कामाक्षीं करि दोषध्नी मपूजय दधात्मवान् लोकहे दोर्दयार्द्रस्य धीमदश्चिन्तनो मुहुः चिरकालेन तपसा तोषितो भूजनार्दनः हयग्रीवां तनुं कृत्वा साक्षाचिन्मात्रविग्रहां शङ्कचक्राक्षवलय पुस्तकोज्ज्वलबाहुकां पुरयित्रीं जगत्कृष्णं प्रभया देहजातया प्रादुर्बभूव पुरतो मुनेरमिद तेजसा तं दृष्ट्वानन्दभरिदः प्रणम्य च मुहुर्मुहुः विनयावनतो भूत्वा सन्तुष्टाव जगत्पदिम् जगन्नाथस्तुष्टस् तपसा तव वरम वर यद्रम से भूसुरोम पृष्ठ भगवद प्रोवाच मुनिम यदि तुष्टोसि भगवन्निमे मे केनो केनोपायेन मुक्तास्युरे तन्मे वक्तुमर्हसि इति पृष्टो द्विजेनाथ देवदेवो जनार्दनः एष एव पुरा प्रश्नः शिवेन चरितो मम अयमेव कृतः प्रश्नो ब्रह्मणादु ततःपरं कृतो दुर्वासशा पश्चाद्भवतादु ततःपरम् भवद्भिः सर्वभूतानां गुरुभूतैर्महात्मभिः ममोपदेशो लोकेषु प्रथितोऽस्तु वरो मम अहमादिर्हि भूतानामादिकर्ता स्वयं प्रभुः सृष्टिस्थितिलयानां तु सर्वेषामपि कारकः त्रिमूर्तेस्त्रिगुणातीतो गुणहीनो गुणाश्रयः इच्छाविहारो भूदात्मा प्रधानपुरुषात्मकः एवं भूतस्य मे ब्रह्मं स्त्रिजगद्रूपधारिणः द्विधा कृतमभूद्रूपं प्रधानपुरुषात्मकं मम प्रधानं यद्रूपम् सर्वलोकगुणात्मकम् अपरं यद्गुणातीतं परात्परतरं महद एवमेव तयोर् ज्ञात्वा मुच्यते ते उभे किमु त्यागैर्दुष्कर्म नाशान्ते मुक्तिरास्वेव लभ्यते यद्रूपं यद्गुणयुतं तद्गुण्यैक्येन लभ्यते अन्यत् सर्वजगद्रूपं कर्म भोगपराक्रमं कर्मभिर्लभ्यते तच्च तत्त्यागेनापि लभ्यते दुस्तरस्तुतयोस्त्यागः सकलैरपितापस अनपायं च सुगमं सदः सत्कर्मगोचरम् आत्मस्तेन गुणेनैव सता चाप्य सतापि वा आत्मैक्येनैव यज्ञानं सर्वसिद्धिग्रदायकं वर्णत्रयविहीनानाम् पापिष्टानां नृणामपि यद्रूपध्यानमात्रेण दुष्कृतं सुकृतायते ते येऽर्चयन्ति परां शक्तिं विधिना विधिनापिवा नदे न नूनं मुक्ता एव न संशयः शिवोवायां समाराध्य ध्यानयोगबलेन च ईश्वरसर्वसिद्धानामर्थनारीश्वरोऽभवत् अन्येब्जप्रमुखा देवासिद्धास्तद्ध्यानवैभवाद् तस्मादशेषलोकानां त्रिपुराराधनं विना न स्तो भोगापवर्गं तु यौगपद्येन कुत्रचिद् तन्मनास्तद्गतप्राणस्तद्याजी तद्गते कः तादात्म्येनैव कर्माणि कुर्वन्मुक्तिमवाप्स्यसि ये दद्रहस्यमाख्यातं सर्वेषां हितकाम्यया सन्तुष्टे तपसा भवदो मुनिसत्तमा देवाश्च मुनयः सिद्धा मानुषाश्च तथा त्वन्मुखां भोजदोऽवाप्यसिद्धिं यान्तु परात्परं यदि तस्य वच हयग्रीवस्य शार्ङ्गिणः प्रणिपत्य पुनर्वाक्यमुवाच मधुसूतनम् भगवन् कीदृशं रूपं भवदा यत्पुरोदितं किं विकारं किं प्रभावमेदन्मे वक्तुमर्हसि अयग्रीव उवाच येषों शभूदो देवर्षे हयग्रीवो ममापरः श्रोतुमिच्छसि यद्यत्वं तत्सर्वं वक्तुमर्हति इत्यादिश्य जगन्नाथो हयग्रीवं तपोधनं पुरधकुम्भजातस्य मुनेरन्धरधाद्धरिः तदस्तु ततस्तु विस्मया विष्टरो मा तपोधन हयग्रीवेण मुनिवाश्रम प्रत्यप्यत यी ब्रह्मांडे महापुराणे उत्तरभागे हयग्रीवागस््य संवाद ललिताख्या अगस् स्य यात्रा जनार्दनाविर्भावो नाम पञ्चमोऽध्यायः ओम्